श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध अथैकोनत्रिंशोऽध्यायः भागवद्धर्मो का निरूपम् और उद्धौ जी का बद्रिकाश्रम गमन् उद्धौ उवाच सुदुश्चरामि मां तन्मे बृह्यं जसाच्युत प्रायश पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः विषीदन्त्यसमाधानान् मनो निग्रहकर्षिताः अथात् आनन्ददुःघं पदाम्बुजं हंसाश्रयैरन्नरविन्दलोचन् सुखं न विश्वेश्वरयोगकर्मभिः त्वन्माययामि विहता न मानिनः किं चित्रमद्युत तदै तवै दशसे सबन्धो दासे स्वनन्यशरणे सृजदात्मसात्त्वं यो रोचयन् स मृगै स्वयमेश्वराणां श्रीमद्गिरीटतटं पीडितपादपीठ तं त्वां शिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं सकृतमिविदं विसृजेत् को नु को वा भजेत् किमपि विस्मृतयेऽनुभुत्यैः किं वा भवेन्न तव पादरजोजुषां नैवोपयन्त्यपचतिं कवयस्तवेष ब्रह्मायुषापि कृतमृध्वं मुदस्मरन्तः योऽन्तर्बहिस्तनूभृतामशुभं विधुन्वन्नाचार्यचैतन् चैत्यवपुषा सुगतिं विनक्तिम् शीशोकुवाच इत्युद्धवेनाद्य निरक्तचेतसा पृष्टो जगत्क्रीडनकशशक्तिभि गीतमूर्ति त्रय ईश्वरेश्वरो जगासप्रेम मनोहरस्मितः श्रीभगवानुवाच हन्त ते कथयिष्यामि मं धर्मान् सुमङ्गलान् पुर्यात् सर्वाणि कर्माणि मदर्थं शनकैस्मरन् मय्यर्पितमनश्चित्तो मद्धरम् मात्ममनोरतिः देशान् पुण्यानाश्रये मद्भक्तैः साधुविषयतान् देवासुरमनुष्येषु मद्भक्ताचरितानि च पृथक्सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् कार्येजगीतनित्याद्यै महाराजविभूतिभि नामेव सर्वभूते सो बहिरन्तरपावितम् इक्षेतात्मनि चात्मानं यथा कममलाशयः इति सर्वाणि भूतानि मद्भावेन महार्जुते समाजयन्मन्यमानो ज्ञानं केवलमाश्रितः ब्राह्मणे पुल्कषे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके अक्रूरे क्रूरके चैव समदृग्पण्डितो मतः नरेष्वभिक्ष्णं मद्भावं पुंसो भावयतो चिरात् स्पर्धा याति तिरस्काराः साहङ्कारा विसृज्य स्मयमानान् स्वानदृशं व्रीडां च दैहि किम् प्रणमे दण्डवद्भूमां वासुशाण्डालगोखरम् यावत्सर्वेषु भूते सुमद्भावो नोपजायते तावदेवमुपासीतवाङ्मनकायवृत्तिभिः सर्वं ब्रह्मात्मकं तस्य विद्यात्ममनीषया परिपश्यन्नु परमेत सर्वतोमुक्तसंशयः अयं हि सर्वकल्पानां सन्धिचीनो मतो मम मद्भाव सर्वभूते सुमनोवाक्कायवृत्तिभिः न शङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवारुण् नया व्यवसितः सम्यग्निर्गुणाद्वादनाशिषः यो यो मयि परे धर्म कल्पते निष्फलाय चेत् तदा यासो निरस स्याद्भयादेरीव सत्तमः एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणां यः सत्यमन्वितेनेहमर्ते नाप्नोति मामृतम् एष ते भीतकृष्णो ब्रह्मवादस्य सङ्ग्रह तमास व्यासविधिना देवानामपि दुर्गमः अभिक्ष्मशस्ते गदितं ज्ञानं विस्पष्ट युक्तिमत् ते तद्विज्ञायमुच्येत पुरुषो नष्टसंशयः